श्रीदत् महोदय भवान् म्यूट् मध्ये अस्ति इदानीं श्रूयते भगिनि आं महोदय तर्हि सर्वेभ्यः नमस्कारः अद्य वयं लक्षणग्रन्थे शु लक्षणग्रन्थे प्रवेशं कुर्मः तस्मात् पूर्वम् अस्माभिः उद्देशग्रन्थः इति भागः अधीतः तर्हि उद्देशः नाम किं लक्षणं नाम किं लक्षणभागः नाम किम् इति अपि अस्माभिः पूर्वं दृष्टम् आसीत् तत्र द्वितीयपूटे उक्तमासीत् यत् वास्वायनभाष्यादिग्रन्थेषु एवं वर्ण वर्णनम् अस्ति तस्मिन् ग्रन्थे त्रयः भागाः सन्ति प्रथमभागः उद्देशभागः द्वितीयः लक्षणभागः तृतीयः परीक्षाभागः इति तर्हि उद्देशभागः नाम नामनिर्देशः तत्र ये पदार्थाः वर्णितः सन्ति देशाम केवलं नामनिर्देशः उद्देशभागे अस्ति तस्य उदाहरणमस्ति द्रव्यम् इति कण्ठनम् अथवा गुणः इति कथनं कर्म इति कथनं तत्र द्रव्यं केन उपायेन ज्ञातव्यम् इति दत्तं नास्ति केवलं नामनिर्देशः कृतः अस्ति इति द्रव्यं गुणकर्म सामान्यविशेष अभावसमवायः सप्तपदार्थः इति एव कथनम् अस्ति केवलं नामनिर्देशः अस्ति द्रव्यं केन केन धर्मेन अथवा केन उपायेन ज्ञातव्यं तस्मिन् विषये उद्देशभागे सूचना नास्ति अग्रिमभागः अस्ति लक्षणभागः तत्र आ, केन वस्तुना द्रव्यं ज्ञातव्यम् इति दत्तम् अस्ति तर्हि द्रव्यं ज्ञातुं कः उपायः अस्ति यथा गुणेन द्रव्यं दातुं शक्यते यतोहि द्रव्येषु गुणः अस्ति एव सर्वेषु द्रव्येषु गुणः अस्ति तर्हि यत्र गुणः तद्द्रव्यम् इति उपायेन वयं द्रव्यं ज्ञातुं शक्नुमः तादृशकथनम् एव लक्षणम् इति उच्यते अनन्तरं तृतीयभागः अस्ति परीक्षाभागः तस्मिन् भागे यत् लक्षणं लक्षणभागे अस्माभिः निश्चितं तद् लक्षणं समीचीनम् अस्ति वानवः तादृशलक्षणं सर्वेषु लक्ष लक्षभूतेषु अस्ति वानवः इति परीक्षणम् एव परीक्षाभागे अस्ति तर्हि इति त्रयः भागः तत्र सन्ति अद्य वयम् दक्षिणभागे प्रविशन्तु तर्हि नीलं भगिनी नमस्कारः भगिनी अत्र <coughs> द्रव्यनिरूपणम् इत्यस्मात् आरभ्य प्रथमपरिच्छेदं पठति महोदय आं महोदय पठामि द्रव्यनिरूपणम् उद्देश्यग्रन्थानुसारेण आदौ पृथिवीं निरूप्यति तत्र गन्धवती पृथिवी सा द्वि द्विधा नित्या नित्या च नित्या परमानुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरम् अस्म अस्मदादीनाम् इन्द्रियं गन्धग्राहकं ग्राणं नासाग्रवर्ति विषयो ृत्तपा तर्हि अत्र लिखितमस्ति उद्देशग्रन्थ अनुसारेण आदौ पृथ्वी पृथिव्याः निरूपणम् अत्र क्रियते यत् गोल्ड् मध्ये लिखितमस्ति यत् गोल्ड् मध्ये लिखितमस्ति सः तर्कसङ्ग्रहग्रन्थस्य भागः एव अस्ति तर्कसङ्ग्रहे पृथिव्याः निरूपणम् एवं कृतम् अस्ति यत् अत्र तरही दत्तमस्त विद्याधरी विद्याधरीग्रंथे यदि वाक्य कशिवाक्यसमूह तर्कसंग्रहा अस् सक्यसमूह वाक्यसमूह बोल्ड रूपेण बोलड रूपेण लिखि वर्त यं ग्रन्थवती पृथ्वी इति पृथिव्याः निरूपणम् अस्ति वी विल् लुक् ए दिस् निरूपणम् अ लिटिल् लेटर् बट् बिफोर् देट् वी शुड् नो वट् इस् लक्षम् अण्ड् वोट् इस् लक्षणम् सो टु क्लारिफै दीस् टु टर्म्स् वी विल् फस्ट् गो टु दि नेक्स्ट् पेरेग्राफ् एण्ड् देन् वट् इस् रिटर्न् इन् वर्ल्ड् वी विल् कम् टु देट् अ लिटिल् लेटर् आफ़्टर् वी हेव् गोन् थ्रू तर्हि भगिनी गन्धः लक्षभूतायाः पृथिव्याः लक्षणम् इति उक्तम् तस्मात् आरभ्य पठति गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति उक्तम् तत्र आदौ किं लक्ष्यम् इति निरूप्यते जिज्ञासितः ज्ञातुम् इष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते तत्र विद्यमानः कश्चित् विलक्षण विलक्षणः पदार्थः लोके वैशिष्ट्यम् गुणः इति वा प्रसिद्धः यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात् एवं लक्ष्यविजातीयाः ये तेषु सः तत् लक्षणम् इति उच्यते तावदेव भगिनी तावदेव तावदेव इदानीं वाक्यशाः पठितु किञ्चित् वदति वा गन्धः प्रयत्नं करोमि गन्धः इति लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति उक्ते इत्युक्ते पृथिव्याः लक्षणम् अस्माभिः पृथिव्याः लक्षणं किम् इति तत्र अस्माकं विषयः अस्ति लिखितमस्ति गन्धः गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् अतः लक्ष्यभूतायाः इति उक्तं लक्ष्यभूतायाः पृथिव्याः तर्हि लक्ष किं भवति लक्ष पृथिवी भवति अपि च लक्षणं भवति ग्रन्धः इति ग्रन्थः इति लक्षणम् अग्रे तत्र आदौ किं लक्ष्यम् इति लक्ष्यम् इति निरूप्यते लक्ष्यम् इत्युक्ते किं यथा भवान् पृथ्वी इति लक्ष्यं तदेव अत्र पृथ्वी इति लक्ष्यमस्ति Hmm. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते इत्युक्ते ये कश्चित् कश्चित् पदार्थं पदार ज्ञातुम् इच्छति ते तं पदार्थं लक्ष्यम् इति तत्र शास्त्रे तादृशव्यवहारः अस्ति तस्य नाम लक्ष्यम् इति वदन्ति जिज्ञासिकः यस्मिन् विषये अस्माकं जिज्ञासा अस्ति अथवा ज्ञातुम् इच्छा अस्ति तादृशपदार्थः न्यायशास्त्रे लक्ष्यम् इति इत्यनेन तस्य व्यवहारः भवति लक्ष्यम् तत्र विद्यमानः कश्चित् विलक्षणपदार्थः लक्ष्यम् इत्युक्ते कश्चन विलक्षणपदार्थः यः अस्ति विद्यमानः अस्ति तदेव विलक्षणपदार्थः लक्ष्यम् इति विलक्षणपदार्थः लक्ष्यं नास्ति अहं वदामि तत्र विद्यमानः इत्युक्ते तत्र इत्युक्ते किम् अस्तु लक्ष्ये लक्ष्ये विद्यमानः लक्ष्ये विद्यमानः कश्चित् विलक्षणपदार्थः सः वैशिष्ट्यम् अथवा गुणः Huh? इति वा प्रसिद्धः तदेव लक्षं लक्षणं तद् लक्षणं तत्र लक्ष विद्यमानः कश्चन विलक्षणपदार्थः लोके वैशिष्ट्यम् अथवा गुणः इति वा प्रसिद्धः <laughs> तर्हि तद्भवति लक्षणं खलु लक्षणं तर्हि तद् लक्षणं कथं कीदृशं भवेत् इति यः अग्रे पठ लक्षसामान्यजातीयाः यावन्तः तेषु सर्वत्र स्यात् तावदेव यः लक्ष्यसमानजातीयः यावन्तः तेषु सर्वत्र स्यात् तर्हि अस्माकं लक्ष्यं किमस्ति अस्माकं लक्ष्यमस्ति पृथ्वी अथवा दौः इति चिन्तयन्तु धेनु कौ लक्षं धेनु अस्ति अथवा गौः अस्ति लक्षं तर्हि लक्ष्यसमानजातीयाः के भवन्ति इति वक्तुं शक्यते लक्ष भूसमानजा लक्ष्यं गौः इति अस्माभिः स्वीकृतम् तर्हि लक्षसमानजातीयः इत्युक्ते भूसमानजातीयाः यावन्तः तेषु सर्वत्र स्या तर्हि गवि अथवा गोषु का जातिः वर्तते तत्र तु गोत्वम् इत्युक्ते गोत्वं गोत्वम् इति जातिः सर्वेषु गोषु वर्तते तर्हि लक्षसमानजातियः इत्युक्ते गोत्वजातीयः यावन्तः पदार्थः तेषु सर्वत्र अस्माकं लक्षणं स्यात् तर्हि सर्वा सर्वापि गावः गोत्वजातीयः भवन्ति सर्वासु गोषु गोत्वम् अस्ति एव अतः लक्षसमानजातीयः अथवा गोत्वसमानजातीयः भवन्ति सर्वाः अपि गावः तर्हि तेषु सर्वत्र अयं विशिष्ट विशेषपदार्थः स्यात् इति अत्र कण्डिशन् अस्ति लक्षणत्वेन यद् वयं स्वीकुर्मः सः पदार्थः सर्वा सर्वासु गोषु भवेत् इति एकः नियमः अस्ति अन्यः नियमः अस्ति एवं लक्षविजातीयाः एवं लक्षविजातीयाः ये तेषु माभूत। तत् यत् वैशिष्ट्यम् अथवा यः गुणः अस्ति गोषु सामान्यजातिषु तत् ता, भिन्नजातिषु सः अथवा तद् लक्षणम् मा भूत् इति अन्य तत् नियमः अस्ति नियमः अस्ति एवं लक्षविजातीयः अस्माकं लक्ष्यमिति गौः कौ इस् अवर् लक्षं तर्हि लक्षविजातीयः भवन्ति यत्र गोत्वम् इति जातिः नास्ति तेषु सर्वेषु इदं लक्षणं न भवेत् इति अन्यः नियमः तर्हि गोत्वजातीयेषु तद तर लक्षणं भवेत् किन्तु तद लक्षणं न भवेत् गोत्रविजातीयः इति के पदार्थः भवन्ति इति शक्यते यथा अश्वः घटः पटः अश्वः तेषु गोत्वं नास्ति तर्हि यत्र गोत्वं नास्ति तत्र अस्माकं लक्षण लक्षणत्वेन स्वीकृतः धर्मः अपि तत्र न भवेत् इति द्वितीयः नियमः अस्ति हुँ. तत् शास्त्रे लक्षणम् इति उच्यते तत् शास्त्रे लक्षणम् hmm. so the, hmm, पदार्थ बिकम्स् दक्षणम् okay? यथा केनचित् यथा केनचित् गौः ज्ञात ज्ञात्वा अस्ति ज्ञातव्या अस्ति ज्ञातव्या सा तर्हि जाता लक्ष्यम् <laughs> गोः इति लक्ष्यमस्ति केनचित् गोः किम् इति ज्ञातुम् इच्छति चेत् गो चेत तत्र गोः इति लक्ष्यं भवति लक्ष्यं भवति तस्याम् अस्ति शासन शासनपदार्थः तस्याम् इत्युक्ते तस्यां धवि तस्यां ध्वी अस्ति शासनपदार्थः इदानीं साष्टः पदार्थः कः इति पश्यामः राघुभागे किमपि लिखितमस्ति हा लिखितमस्ति अत्र एकं चित्रमपि मया स्थापितमस्ति सर्वैः दृश्यते चित्रं चित्रं चित्रं द्रष्टुं शक्नोति खलु तर्हि गोः चित्रम अस्ति तत्र सासना इति युक्ते किं सासना इति गलस्य अधोभागे लम्बमानः मृदु अवयवविशेषः तर्हि गोः गलः अत्र अस्ति तस्य अधोभागे लम्बमानः एकः मृदु अवयवविशेषः अस्ति तत्र थिक् स्किन् अस्ति दट् थिङ्ग् इस् हेङ्गिङ्ग् फ्रोम् द्रूट् आफ् द कौ हेङ्गिङ्ग् पार आफ् द अवयवाः विच इस् इन् दार्म् आफ् अ स्किन् थिक् स्किन् देट् इस् काल्ड् सासना तादृशी सासना गी एव अस्ति सासना इति धिस् अवयव इज एक्सिस्ट् ओन्ली इन् कौ इट् ड्ट एक्सििस्ट् इन् एनी अदर एनिमल इति अस्ति तर्हि वयं सासलापदार्थः केवलं गवि वर्तते गोभिन्नप्राणिषु सासला न वर्तते इति अस्ति वेन् वि आर् ओन् दिस् पिक्चर् ऐ वाण्ट् टु क्लारिफै आल्सो वन् थिङ्ग् शफः इति एक अवयवः अस्ति वस्तुतः गोः पादे शफद्वयम् अस्ति शप इत्युक्ते किम् तर्हि गोःपादे विशेष अंगम वर्तते बहु कठिनं च अस्ति जस्ट् अवर् टोज् हेव् नेल्स् अवर् टोज़् हेव् नेल् वी हव् फ् टोज् देर् आर् फै नेल्स् देर् सिमिलर्ली ए फूट आफ़् एक् हौ यू के यु केन् से देर् आर् टु थिक् नेल्स् टु नेल्स् सैड् बै सैड् बै सैड् दे आर् वेरि हार्ड् this, this is the uh, special दि of the cow, and cow has two nails like this, that is called इस् काल्ड् शफः तर्हि गौः शपद्वयं वर्तते द्वौ शपौ गवीस्तः अपि च अश्वे एकः एव शपः श्वे एकः हा भगिनी वदतु पुनरेकवारं खुरः खुराय खुरः खुरः समीचीनं गवि शप शपः एव खुरः इति तर्हि गवि शपद्वयं वर्तते निरटु ुराज् इन् काव् बट् इन् द केस् आफ् अ हार्स् इट् एस् गोट् ए सिङ्गल् शफ देर् आर् नाट् टु शफ़ इट् इस् आल् वन् इण्टिग्रेटेड् वन् शफ अस्ति इति तत्र भेदः अस्ति तर्हि तत् अस्ति शफ विषये उक्तं तस्य उपयोगः अग्रे भवति इत्यतः मया इदानीम् एव तद्विषये स्पष्टीकरणं दत्तं तर्हि सास्ना का इति अस्माभिः दृष्टं शफ शफद्वयं तस्याम् अस्ति शासनपदार्थः गवि सासनपदार्थः अस्ति सः गोजातीयेषु गोत्व आश्रयेषु यावत्सु अवश्यं भवति सः सः इत्युक्ते सासनापदार्थः गोपजातीयेषु गोजातीयः ये पदार्थाः अस्ति यत्र यत्र यत्र गोत्वम् अस्ति तत्र सर्वत्र सासनापदार्थः अस्ति एव अवश्यम् अस्ति अवश्यम् अस्ति च गोत्व आश्रयेषु गोत्वश्रयेषु इस् सेम् एस् गोजातीयेषु गोत्व आश्रयेषु इत्युक्ते गोत्व इति जातेः आश्रयः अस्ति आश्रयः अस्ति गौः एव तर्हि गोत्व आश्रयः भवति सर्वः अपि गावः तर्हि सर्व सर्वासु अपि गोषु सासनापदार्थः अवश्यम् अस्ति इति अत्र लिखितम् अनन्तरं गौ विजातीयेषु विजातीयेषु गोत्व अभाव आश्रयेषु अश्वम् अश्वम् अहिष्या अश्वमहिषादिषु न नैव अस्ति यत्र गोत्वस्य आश्रयः नास्ति गोत्वस्य अभावः अस्ति यथा अश्वमहिषी आदि तत्र गौत्वं नैव अस्ति सोरि शासनपदार्थः न नास्ति इति तादृशं तादृशं च शासनपदार्थं दृष्ट्वा तद्वती या सा गौः इति वेत्ति वेत्ति वेत्ति इत्युक्ते समीचीनं जानाति तर्हि गोत्वविजातीयेषु इत्युक्ते यत्र गोभिन्नजातीयेषु गोभिन्नजातीयः कः सन्ति अश्वः गोभिन्नजातीयः अस्ति यतोहि अश्वे गोत्वजाति नास्ति अपि तु अश्वत्वजातिः अस्ति अतः अश्वः भवति गोविजातीयः पदार्थः महिषी बफेलु तत्र अपि गोत्वम् नास्ति महिषीत्वम् अस्ति अतः महिषी अपि भवति गोविजातीयपदार्थः तादृशपदार्थेषु यत्र गोत्वम् जाती नास्ति तत्र सासनापदार्थाः अपि नास्ति तादृशम् सासनापदार्थम् यदि कस्मिञ्चित् प्राणिनि वयम् पश्यामः तर्हि सा गौः इति वयम् जानीमः इति अत्र उक्तमस्ति धन्यवादः भगिनी देवेन्दना भगिनी नमस्कार महोदय श्रूयते श्रूयते अत्र अस्मिन् परिच्छेदे यत् उक्तम् आसीत् यत् भगिन्या पठितम् अपि तदेव चित्ररूपेण अत्र दर्शितम् अस्ति अत्र गावः इति लिखितमस्ति गावः इति गौः इत्यस्य बहुवचनं गावः तर्हि अत्र उदाहरणरूपेण अष्ट अष्टौ गावाः दर्शिताः सन्ति अष्टौ गावः सन्ति तेषु सर्वेषु तासु सर्वासु गोषु गौत्वम् अस्ति एव सर्वत्र गौत्वम् अस्ति गौत्वम् इति जातिः सर्वत्र अस्ति अपि च Uh, तत्र शासनापदार्थः अपि अस्ति शासनपदार्थः अपि अस्ति अतः सासनापदार्थः भवति गोः लक्षणं सासनपदार्थः भवति लक्षणं गौः भवति लक्षा अथवा लक्ष्यम् अनन्तरं गवेतरजगत् गो गो, गवे गो, गो इतरजगत् गोभिन्न uh, पदार्थानां यत् जगत् अस्ति अथवा समूहः अस्ति यत्र गोभिन्न इत्युक्ते तत्र गोत्वजाति नास्ति महिषी महिषी इति बफेलु तत्र गोत्वजातिः नास्ति अथवा गोविजातीयः अस्ति महिषी तत्र सासना अपि नास्ति अश्वः अश्वे गोत्वं नास्ति अतः सासना अपि नास्ति रासवः रासभः इति उक्ते किं भगिनिकि गर्धभः अथवा डोङ्कि रासभः रासभे रासभत्वमस्ति गोत्वं नास्ति तर्हि रासवः भवति गोविजातीयः पदार्थः तथैव घटः पटः मठः चटः व्याघ्रः सिंहः शशः उष्ट्रः एते सर्वे पदार्थाः गोविजातीयाः सन्ति तत्र गो गोः गो या जातिः भोतुं सा जातिः एषु पदार्थेषु न भवति उष्ट्रः इति उक्ते केमल् केमल् उष्ट्र इति केमल् तर्हि अत्र गोविजातीयपदार्थः दर्शिताः सन्ति अत्र गोपदार्थाः अत्र गोत्वम् तर्हि अग्रिमं वाक्यं वा तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तल्लक्षणम् यः पदार्थः एवं विधा न भवति सः न लक्षणं किन्तु लक्षणाभासः इत्युक्ते यः पदार्थः सर्वेषु लक्षेषु अस्ति सर्व अन्यपदार्थे अन्य लक्ष्य विजातीयपदार्थेषु नास्ति तत् लक्षणमस्ति तत्र गो इति गौः इति लक्ष्यम् अस्ति तस्य लक्षणमस्ति स्नासनापदार्थः स्नासनावत्वम् इति गोः गौः गो लक्षणम् अस्ति oh. पदार्थः अतः यः पदार्थः एवंविधः न भवति स न लक्षणं किन्तु लक्षणाभासः अतः यः यः पदार्थः केवलं लक्षेषु अस्ति तत् तस्य लक्षणमस्ति परन्तु यः पदार्थः लक्षेषु नास्ति सः तस्य न लक्षणं परन्तु तस् तत् लक्षणाभासः तस्य केवलं भासः अस्ति लक्षणं लक्षणाभासः लक्षण आभासः इत्युक्ते केवलं लक्षणम् इव दृश्यते किन्तु वस्तुतः तत् लक्षणं नास्ति अति आभासः एव फाल्स् प्रतीति भवति इट् लुक्स् लैक् लक्षणं बट् वस्तुतः लक्षणं नास्ति पुनरेकवारं वदामि यत् तथा यत् सर्वेषु लक्षेषु भवति यः धर्मः अथवा यत् वैशिष्ट्यं सर्वेषु लक्ष्येषु भवति अलक्षु नक्षु न लक्षण अस्म दृष्ट सासना पदार्थ सर्व सर्वासु गोषु वर्त कि महिषिषु न वर्त अत सासना पदार, सासना पदार लक्षण समीचीनम नं लक्षण अन यद एवं विध न एवंविधा इत्युक्ते यः पदार्थः यत् उपरि लिखितं लक्षणस्य लक्षणं किम् इति कथनसमये यत् सर्वेषु लक्षेषु भवति अपि च अलक्षेषु न भवति तद् लक्षणं यः पदार्थः एवं विधा न भवति एवंविधा न भवति इत्युक्ते यः पदार्थः सर्वेषु लक्षेषु न भवति अथवा अलक्षेषु भवति तत् तद, तदेव एवंविधं न भवति इति यद् तर्हि तद् तार न लक्षणं किन्तु लक्षणस्य आभा लक्षणस्य भ्रमः एव इति अत्र लिखितमस्ति एतावता यत् पठितं कस्यापि प्रश्नः अस्ति वा भगिनी गौ लक्ष्यं लक्षणपदार्थं दण्डर्स्ट् लक्ष्यं गौः लक्षणपदार्थं लक्षणपदार्थं अन्यजीवे श्वस्ना नास्ति अन्यज अन्यजीवे यत्र यत्र गोत्वमिति जातिः नास्ति तत्र स्वस्ना अपि नास्ति गोत्वम् एव गौः एव अस्ति गोत्व अन्यजीवे अन्यजीवे नास्ति धन्यवादः तर्हि अस्माकं लक्षणं यत् अस्माभिः चिन्तितमस्ति इदं लक्षणं भवतु इति तद् लक्षणं समीचीनम् अस्ति न वा इति परिशीलनाय तस्मिन् लक्षणे त्रयाः दोषाः न भवेयुः तर्हि अत्र त्रयः दोषः अग्रे उक्तः सन्ति एकः दोषः अस्ति अव्याप्तिदोषः अन्यः अस्ति अतिव्याप्तिदोषः तृतीयः दोषः अस्ति असम्भवदोषः तर्हि एते त्रयः दोषाः यदि लक्षणे न भवन्ति तर्हि तद् लक्षणम् समीचीनम् लक्षणम् इति वक्तुम् शक्यते तर्हि वयम् पश्यामः एकैकः एक दोषः कीदृशः अस्ति इति तर्हि प्रथमम् अव्याप्तिदोषः अव्याप्ति दोष कशिप पदार्थ नु लक्ष्यु वर्त किस यहाँ गो शेत कैनचि उत्तम इदमच श्वेत गोजातीत वर्त कृष्णकविः नास्ति इति तत्र अव्याप्तिः इति लक्षणदोषः भवति लक्षणमित्युक्ते कश्चित् लक्षणपदार्थः एव वर्तते सः तस्य लक्षणमस्ति अत्र कश्चित् पदार्थः न सर्वेषु लक्षेषु वर्तते इत्युक्ते सर्वेषु लक्षेषु तत् गुणपदार्थः अथवा गुणः न दृश्यते किन्तु किन्तु केषुचित् एव लक्षेषु वर्तते न सर्वेषु लक्ष्येषु वर्तते अतः तत् दोषः अव्याप्तिदोषः इति उच्यते oh. यथा गोः यदि लक्षणं गोः लक्षणं श्वेतरूपम् इति वदामः तर्हि श्वेतरूपं केवलं श्वेतकविः एव वर्तते कृष्णगविः न वर्तते अतः गोरूप श्वेतरूपम् इति गोः लक्षणं न भवितुम् अर्हति तत्र यदि कोऽपि वदति गोः लक्षणं श्वेतरूपम् इति लक्षणं यदि कोऽपि वदति तर्हि तत् समीचीनं वा इति परिशीलनाय वयं uh, जानीमः यत् श्वेतरूपं uh, गवि तु अस्ति यत्र श्वेतरूपमस्ति गवि तत्र गोत्वम् अपि अस्ति किन्तु um, सर्वासु गोषु श्वेतरूपं नास्ति कस्मिञ्चित् गवि कृष्णरूपम् अपि अस्ति किन्तु सः अपि गौः एव सः अपि लक्ष्य कृष्णगौः अपि लक्षा श्वेतरूप श्वेतगौः अपि लक्षा अस्ति तर्हि इदम् श्वेतरूपम् इति लक्षणम् लक्ष्यस्य सर्वभागेषु न गच्छति अतः श्वेतरूपम् इति लक्ष... इति लक्षणम् अव्याप्तम् अस्ति इति नयिकाः वदन्ति तर्हि तद् लक्षणम् सर्वासु गोषु न सङ्गच्छते अतः अत्र अव्याप्तिदोषः अस्मिन् लक्षणे आयाति अतः इदं लक्षणं न समीचीनं लक्षणं किन्तु लक्षणाभासः एव भ्रमात्मकं लक्षणम् एव इति नैयायिकाः वदन्ति अत्र प्रकृत इदं परिच्छेदं पठतु अनन्तरम् अहं अन्यं किमपि वदामित्रे पठामि वा पठतु प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति तासु सर्वासु गोत्वमस्ति तत्र प्रथमा द्वितीया चतुर्थी षष्ठी च श्वेतरूपवती परन्तु तृतीयायां पञ्चम्यां सप्तम्याम् अष्टम्यां च गवीश्वेतरूपं नास्ति अतः गोत्ववत्तु कासुचित् श्वेतरूपस्य अभावः वर्तते अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः <laughs> तत्र चित्रे अष्टौ गावः सन्ति तत्र सर्वासु गोत्वमस्ति परन्तु केवलं चत्वारः गौः अस्ति तत्र श्वेतरूप तत्र ते श्वेतरूपवती परन्तु अन्यत्र श्वेतरूपं नास्ति अतः केषुचित् गोषु श्वेतुरूपस्य अभावः दृश्यते अतः श्वेतुरूपं गोः लक्षणं न भवति अतः तत्र अव्यापि दोषः अस्ति अतः तत्र लक्षणाभासः अस्ति प्रश्नः अस्ति महोदय श्वेतरूपं न अस्ति चेत् तद् लक्षण आभासः वा तद् लक्षण आभासः असमीचीनं लक्षणं गोः लक्षणम् श्वेतरूपम् इति लक्षणे दोषः भवति अव्याप्ति दोषग्रस्तम् अस्ति तद् तस्मिन् लक्षणे अव्याप्तिदोषः अस्ति इति वक्तुं शक्यते यतो हि सर्वा सर्वापि गावः श्वेतवर्णीयः न सन्ति केचित् कृष्णवर्णीयः अपि तत्र अपि गोत्वं अस्ति किन्तु श्वेतरूपमिति लक्षणम् उक्तं चेत् श्वेतरूपं कृष्णकविः नास्ति अतः इदं लक्षणं सर्व सर्वासु न गच्छति अतः तत्र लक्षणदोषः अव्याप्ति इति लक्षणदोष स्पष्टमस्ति भरत महोदय श्रूयते वा महोदय अस्तु तर्हि नीलं भगिनी अद्य लक्ष्मीभगिनी उक्तवती सा बहिः अस्ति अतः केवलं शृणोमि इति नीलं भगिनी अनन्तरं द्वितीयः दोषः अतिव्याप्तिदोषः अतिव्याप्तिदोषः द्वितीयः दोषः अतिव्याप्तिः दो एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्षे अपि भवति यथा गौः शृङ्गं लक्षणम् उक्तं चेत् तत् लक्ष्य लक्ष्यासु गोषु वर्तते तथैव अलक्ष्येषु अजा अजादिषु अपि वर्तते Hmm. द्वितीयदोषः अस्ति अतिव्याप्तिदोषः तादृशदोषः यः तस्मिन् पदार्थे भवति लक्ष्ये अपि भवति अलक्ष्ये अपि भवति यत्र गोत्वं नास्ति तत्रापि भवति गोषु सर्वत्र गोषु तु अस्ति एव परन्तु यत्र गोत्वं नास्ति तत्रापि भवति तत तत् अतिव्याप्तिः यथा उदाहरणमस्ति यथा गोः शृङ्गं लक्षणम् उक्तं चेत् शृङ्गमिति गोः लक्षणमस्ति चेत् तत् शृङ्गं लक्ष्यासु गोषु वर्तते सर्वासु गोसु शृङ्गं वर्तते परन्तु शृङ्गम् अन्यत्रापि अस्ति यथा अजादिषु गोट् तत्रापि शृङ्गं वर्तते तदेव अतिव्याप्तिः तर्हि शृङ्गम् इति यत् लक्षणत्वेन स्वीकृतं तर्हि शृङ्गम् इति धर्मः अतिव्याप्ति दोषग्रस्तः अस्ति अतः शृङ्गं गोः लक्षणम् इति वक्तुं न शक्यते यतो हि शृङ्गं गोषु अस्ति किन्तु गोभिन्न प्राणिषु अपि शृङ्गम् अस्ति अतः शृङ्गं न समीचीनं लक्षणम् ित्रे प्रकृचित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते परन्तु अलक्ष्ये अजादव अपि वर्तते इति तत्र अतिव्याप्ति दो अतिव्याप्तिः दोषः भवति अतः न इदं लक्षणं किन्तु लक्षण अभा आभासः शृङ्गमपि लक्षण आभासः एव भवति किमर्थं चेत् अलक्षेषु अपि शृङ्गम् अजादिषु अपि शृङ्गम् इति लक्षणं स्वीकुर्मः चेत् तदपि अन्यत्रापि वर्तते अतः तत् अतिव्याप्तिदोषः भवति अतः वयं लृङ्गमिति न स्वीकर्तुं लक्षणं वैशिष्ट्यं अत्र तदेव अत्र चित्र चित्रे अपि दर्शितम् अस्ति अत्र बहु लक्ष अस्ति तत्र सर्वत्र शृङ्गम् अस्ति इति वयं जानीमः अस्मिन् चित्रे अपि तदेव दर्शितम् अस्ति शृङ्गं सर्वासु गोषु वर्तते किन्तु अलक्ष्यं यदस्ति अलक्ष्यम् इत्युक्ते यस्मिन् अस्माकं लक्ष्यमस्ति गौः तर्हि गौविजातीय पदार्थेषु अथवा प्राणिषु यत्र गोत्वम् अस्ति तत्र शृङ्गत्वम् अस्ति अजादिषु महिषी महिष्यां शृङ्गमस्ति मृगे शृङ्गमस्ति मेषे शृङ्गमस्ति किन्तु तत्र गोत्वं तु कुत्रापि नास्ति अतः शृङ्गम् इति लक्षणम् अलक्षे अपि अलक्षे अपि सङ्गच्छते वर्तते अतः शृङ्गम् इति लक्षणम् अतिव्याप्तिदोषग्रस्तम् लक्ष्ये अस्ति तस्मात् अतिरिच्य अलक्ष्ये अपि अस्ति अतः अतिव्याप्तिः नन्तरम् असम्भवदोषः तृतीयः अस्ति असम्भवदोषः तृतीयदोषः असम्भवः यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति यथा केशराः सिंहजटाः गौः लक्षणम् इति उक्तम् तत्र गोजातीया जातीयां तस्यामपि गवि सः धर्मः नास्ति इति तस्मिन् असम्भवदोषः असम्भवदोषः तृतीयदोषः असम्भवदोषः वदतु यः धर्मः धर्मः आव... कस्मिन्नपि लक्ष्ये न भवति भवति अत्र अस्मिन् अत्र किं लक्ष्यं लक्ष्य लक्ष्य लक्ष्यम् इति इत्यनेन किं स्वीकृतमस्ति गौः खलु गौः अस्माकं लक्ष्य अस्ति तस्मिन् गवि सिंहजटाः कृत न भवन्ति कस्मिन् अपि गवि कस्याम् अपि गवि सिंहजटः न भवन्ति अतः सिंहजटः इति धर्मः कस्मिन् कस्याम् अपि गवी नास्ति अतः तादृशधर्मः असम्भवदोषेण ग्रस्तः अस्ति तस्मिन् असम्भवदोषः अस्ति असम्भवदोषः स्पष्टमस्ति इति मन्ये अनन्तरं भगिनी पूर्वोक्त तर्हि अस्माभिः यदुक्तं सासनारूपधर्मः सास्मा इति धर्मः द्वी अस्ति तर्हि तत् तत् समीचीनं लक्षणम् अस्ति वा न वा इति विषये चिन्तनम् अत्र कृतमस्ति पठतु पूर्वोक्तशासनारूपधर्मः गवि वर्तते अतः न असम्भवः दोषः सर्वासु गोषु इति न अव्याप्तिदोषः एवम् अलक्ष्येषु अज महिषी महिषि आदिषु न वर्तते इति न अतिव्याप्तिदोषः इति निर्दिष्टुं शासनावत्वं बहु लक्षणम् इति उच्यते निर्दिष्टम् इत्युक्ते समीचीनं शुद्धं लक्षणं दोषरहितं लक्षणं भवति शासनावत्वम् शासनावत्वं भवति दोषरहितं लक्षणं तस्य गोः तस्मिन् लक्षणे अव्याप्तिः नास्ति अतिव्याप्तिः अपि नास्ति दोषः अपि अतः समीचीनं लक्षणम् अत्र उक्तं पूर्वोक्तशासनरूपधर्मः गवि वर्तते शासनरूपधर्मः गवि वर्तते अतः असम्भवदोषः न भवति यदि शासनारूपधर्मः कस् अपि गवी न स्यात् तर्हि असम्भवदोषः स्यात् किन्तु सः गवि वर्तते अतः न असम्भवदोषः सर्वासु गोषु अस्ति अतः न अव्याप्तिदोषः तर्हि शासनारूपधर्मः केवलं श्वेतगवि अस्ति कृष्णगवि नास्ति इति परिस्थितिः नास्ति सर्वासु गोषु शासनरूपधर्मः अस्ति एव अतः न ना अव्याप्तिदोषः नास्ति hmm. सर्वासु गोषु शासनाधर्म शासनरूपधर्मः अस्ति श्वेत श्वेतगवि वा कृष्णगवि वा सर्वत्र शासनरूपधर्मः अस्ति अनन्तरम् अतिव्याप्तिदोषः अस्ति वानुवा इति अत्र चिन्तितमस्ति अलक्षेषु अजमहिषादिषु न वर्तते सासनारूपधर्मः अन्यप्राणिषु न वर्तते गोभिन्नप्राणिषु न वर्तते अजः महिषा महिषी अथवा अश्वः तत्र सासना इति पदार्थः नास्ति अतः अतिव्याप्तिदोषः अपि नास्ति अलक्षेषु सासनरूपधर्मः न गच्छति अतः त्रयापि दोषः सासन इति पदार्थे न सन्ति अतः सासनावत्त्वं भवति दोषरहितं लक्षणं गौः तर्हि अत्र एक एका कृष्ण यदि अहं वदामि शृङ्गित्वं मनुष्यस्य लक्षणम् शृङ्गि शृङ्गि शृङ्गः यस्य अस्ति इति शृङ्गः यस्य अस्ति अथवा यस्मिन् अस्ति इति सः शृङ्गि तर्हि शृङ्गित्वं मनुष्यस्य लक्षणम् इति यदि कोऽपि वदति तर्हि तस्मिन् लक्षणे कीदृशदोषः अस्ति असम्भवदोष समीचीनम् यतोहि शृङ्गित्वं कस्मिन् अपि मनुष्ये नास्ति एकः एव एकः अपि मनुष्यः न दर्शयितुं शक्यते यस्य शृङ्गित्वम् अस्ति अतः असम्भवदोषः तत्र अस्ति अनन्तरम् अन्यत् उदाहरणम् अस्ति कोऽपि वदति एकशपत्वम् एकशपवत्वं गोः लक्षणम् एकशपवत्वं गोः लक्षणं लक्षणम् अत्रापि असम्भवदोषः यतोहि दवि द्विषप द्विशपत्वम् अस्ति एकशपत्वं तु अश्वे अस्ति किन्तु गवीदा अस्ति अतः गोः लक्षणम् एकशपत्वम् इति असम्भवदोषेण ग्रस्तम् इति वक्तुं शक्यते ग्रस्तम् इति उक्ते बै दट् दोष तर्हि अस्माभिः दोषत्रयं दृष्टम् अव्याप्ति अतिव्याप्ति असम्भवः यस्मिन् लक्षणे दोषत्रयेषु कः दोषः न भवति सः भवति लक्षणम् तथा नास्ति चेत् सः भवति लक्षण आभासः अथवा लक्षणभ्रमः अथवा दुष्टं लक्षणम् असमीचीनं लक्षणम् इति कस्यापि प्रश्नः सन्ति वा तर्हि अस्मिन् विषये एव एकं लघु करपत्रमस्ति तत् करपत्रं पठामः असाधारणलक्षः असाधारणधर्मः लक्षणम् असाधारणधर्मः लक्षणं लक्षणं नाम किम् असाधारणधर्मः लक्षणम् इति उच्यते असाधारणर्म कव्या अतिव्या असंभवदोषर धर्म असाधारण तरी लक्षण नाम असाधारणर्मा लक्षण असाधारण तहव्या अतिव्या असंभवदोषरि धर्म एक बोति असाधारण नीलं भोजिनी करपत्रं दृश्यते न स्क्रीन् मध्ये अत्र किञ्चित् पठ पठ अस्माभिः पूर्वं कृतमेव अस्ति अपि च सुलभतया उक्तमस्ति अत्र गोः लक्षणं किम् गोः लक्षणं किम् अधुना यस्य लक्षणम् उच्यते तद् लक्ष्यम् कस्य लक्षणम् उच्यते गोः तर्हि सर्वाः गावः लक्ष्याः गोलक्षणं नाम गवि एव विद्यमानः धर्मो धर्मः भवेत् अन्यत्र न भवेत् निखिलासु अपि गोषु भवेत् गो अतिरिक्तेषु न भवेत् तादृशो धर्मः असाधारणधर्मः ओके तावदेव किञ्चित् चिन्तयामः गोः लक्षणं किम इति प्रश्नः अस्ति चेत् यस्य लक्षणम् उच्यते तद् लक्ष्यं कस्य लक्षणं ज्ञातुम् लक्षण। इच्छामः गोः लक्षणं तर्हि गोः भवति लक्ष्यम् अथवा लक्ष्यम् कस्य लक्षणम् उच्यते गोः गोः तर्हि गोः इति उक्ते केवलम् एकस्य एकस्याः गोः लक्षणम् इति अर्थः नास्ति सर्वाः अपि गावः लक्ष्याः भवन्ति सर्वाः अपि गावः यावन्तः गावः सन्ति ते सर्व ताः सर्वाः एव लक्षाः भवन्ति अनन्तरं गोलक्षणं नाम गविद्यमानधर्मः भवेत् गो गोः गो लक्षणत्वेन यः धर्मं यद् यं धर्मं वयं स्वीकुर्मः सः गवि भवेत् केवलं दवि... गवि भवेत् यदि गवि नास्ति चेत् असम्भवदोषः भवति खलु यदि तादृशधर्मः गवी नास्ति एकस्याम् अपि गव, गवी नास्ति तर्हि तत् तर असम्भवदोषः अन्यत्र न भवेत् तर्हि यत्र गोत्वं नास्ति तादृश अश्वे अथवा महिष्यं सः धर्मः न भवेत् निखिलासु अपि गोसु भवेत् निखिलासु इत्युक्ते सर्वासु गोसु अपि भवेत् सर्वसु अपि गोषु सः धर्मः भवेत् गो अतिरिक्तेषु न भवेत् गोभिन्न प्राणिषु न भवेत् तादृशधर्मा एव असा असाधारणधर्मः इति भगिनि अग्रे गोः लक्षणं गोः लक्षणं कपिलरूपवत्वम् इति उच्यताम् तर्हि वदति भवतु इति ब्रौन् कलर् ब्रौन् कलर् आफ् तर्हि लक्षणं कपिलरूपत्वं सर्वासु गोषु भवति वा न हि न हि काश्चन गावः श्वेतरूपवत्यः काश्चन कृष्णरूपवद्यः अतः कपिलरूपव रूपवस्य धर्मस्य अव्याप्तिः नाम लक्षे लक्षेकादेश अवृत्तित्वं अवृत्तित्वं कुत्रचित् अस्ति कुत्रचित् नास्ति अतः तत्र न वर्तते कुत्रचित् कस्मिञ्चित् देशे कपिल इत्युक्ते कस्मिञ्चित् लक्ष्ये कपिलरूपवत्वम् इति गुणः न वर्तते अतः तत्र अवृत्तित्वम् इति अवृत्तित्वम् इति भवति अव्याप्तिदोषस्य लक्षणम् अव्याप्तिदोष अग्रे लक्षस्य एकस्मिन् देशे लक्ष्यस्य एकस्मिन् देशे नास्ति चेत् लक्ष्य एकदेश अवृत्तित्वं लक्ष एकदेश अवृत्तित्वम् तर्हि लक्षः इत्युक्ते चिन्तयन्तु एकशतं गावः सन्ति सः सर्वाः अपि गावः अस्माकं लक्ष्यम् अस्ति किन्तु इदानीम् अस्माकं लक्षणम् अस्ति कपिलरूपवत्वं कपिलरूपं ब्रौन् कलर् कपिलरूपवत्वम् इति यदि लक्षणम् अस्ति तर्हि तद् लक्षणं कपिलगुरुषु एव वर्तते किन्तु mm. अस्माकं ये गावः सन्ति तेषु श्वेतरूपवत्याः mm. अपि गावः सन्ति तत्र तु इदं न अन्वेति तस्य अन्वयः न भवति अतः इदं लक्षणम् अव्याप्ति दोषग्रस्तम् अस्ति लक्ष्यस्य एकदेशे एव वर्तते इति <coughs> लक्षस्य एकदेश अवृत्तित्वं लक्षस्य एकदेशे यत्र <coughs> श्वेतरूपमस्ति तत्र कपिलरूपवत्वम् इति लक्षणं न गच्छति अतः तद् लक्षणं लक्ष एकदेश आवृत्तिः अस्ति अग्रे कपिलरूप आश्रत्वं ग्वां लक्षम् इति उक्तम् परन्तु गोषु सर्वत्र कपिलरूपत्वं न वर्तते रूपवत्वम् कपिलरूपवत्वं न वर्तते अस्माभिः uh, यत् लक्षणम् उच्यते तत् सर्वासु लक्ष्यासु वर्धते इति प्रदर्शनीयं यद् इत लक्षणं वयं स्वीकुर्मः तत् तद् तद लक्षणं सर्वासु लक्ष्येषु भव भवेत् एव परन्तु तद् अस्माभिः तत्र प्रदर्शनीयं यदि न भवति चेत् तत्र दोषः किमपि दोषः भव दो यथा अव्याप्तिदोषः भवति सर्वासु इति इत्युक्ते यदि गौः अस्माकं लक्ष्य अस्ति अपि च एकशतं गावः सन्ति तर्हि सर्वासु एकशतं गोषु तद् लक्षणं भवेत् hmm. अन्यथा तत्र दोषः अव्याप्तिदोषः परन्तु परन्तु कपिलरूपत्वं यत् लक्षणमुक्तम् सर्वासु गोषु नास्ति अतः एतत् लक्षणम् अव्याप्तिदोषग्रस्तम् <laughs> लक्ष्य अत्र कपिलरूपत्वम् इति लक्षणं स्वीकुर्मः चेत् तत्र अव्याप्तिदोषः भवति किमर्थं चेत् सर्वत्र कपिलरूपत्वं नास्ति कुत्रचित् श्वेतरूपम् अस्ति कुत्रचित् कृष्णरूपम् अस्ति गोषु अतः अव्याप्तिदोषः अस्ति अस्मिन् लक्ष्ये अस्मिन् लक्षणे लक्ष्य एकदेश आवृत्तित्वं तथैव न्यायशास्त्रे वदामः लक्ष्य एकदेश अवृत्तित्वम् अस्मिन् लक्षणे कृष्णवर्णीयासु गोषु न वर्तते कपिलरूप अश्रयत्वं नाम कृष्णवर् गोषु कपिलरूप आश्रयत्वम् आवर्ति आवृत्तित्वम् कसंचित् द्वां कपिलरूप आश्रयत्वस्य वृत्तित्व अभावः अस्ति तदेव अवृत्तित्वं वृत्तित्व अभावः अयमेव अव्याप्तिदोषः अतः कपिलरूप आश्रयत्वम् गोः लक्षणम् इति मास्तु तर्हि कपिलरूपाश्रयत्वम् इति लक्षणम् असमीचीनम् अस्ति दोषद्रस्तम् अस्ति अनन्तरं शृङ्ग निरञ्जनभगिनी पठति वा श्रूयते वा महोदय आश्रूयते शृङ्गं या शृङ्गवती अस्ति सा शृङ्गिणी तस्याः शृङ्गित्वं वर्तते गोः असाधारणधर्मः शृङ्गित्वं वा अधुना दोषः नास्ति किल सर्वासु गोषु शृङ्गित्वं विद्यते अत्र अन्य यदि अन्यरक्षणं वदामः तर्हि शृङ्गवत्त्वम् इति गोः लग्नं भवति वा इति प्रश्नः उदेति यः गोह असान् असाधारणधर्मात् शृङ्गित्वम् अस्ति वा अतः गो सर्वेषु सर्वासु गोषु शृङ्गित्वं विद्यते प्रत्येकस्यां ग गवि शृङ्गं तु भवत्येव तर्हि शृङ्गित्वं गोह लक्षणम् इत्युच्यते चेत् व्याप्तिदोषः नास्ति लक्षस्य एकदेशे शृङ्गित्वं नास्ति इति एव निखिलासु गोषु वर्तते शृङ्गित्वम् शृङ्ग शृङ्गवत्वं शृङ्गित्वम् इति गोः लक्षणं यदि वदामः तर्हि तत्र व्यापि दोषः न दृश्यते तत्र सर्वासु गोषु शृङ्गित्वम् अस्ति परन्तु शृङ्गित्वम् अथवा शृङ्गः इत्यस्य अर्थः सर्वे जानन्ति वा अतः सर्वासु गोषु शृङ्गित्वं विद्यते अतः तत्र अव्याप्तिदोषः नास्ति अव्याप्तिदोषः इत्युक्ते केषु कुत्रचित् भवति कुत्रचित् न एक एक भव, भवति एकदेश एकदेशे भव भवति अन्यत्र न भवति अतः सर्वमस्ति अतः सर्वासु गोषु रङ्गित्वं विद्यते अतः तत्र अव्याप्तिदोषः न दृश्यते प्रत्येकस्यामपि गविशुङ्गं तु भवत्येव तर्हि शृङ्गित्वं गोः लक्षणम् इत्युच्यते चेत् अव्यापि दोषः नास्ति लक्षस्य एकदेशे शृङ्गित्वं नास्ति इति तु नास्ति एव निखिलासु गोषु वर्तते शृङ्गित्वं परन्तु अन्यत्र अस्ति वा हरिणे च शृङ्गित्वं विद्यते किल तर्हि इदं लक्षणम् अतिव्याप्तं सर्वासु गोषु शृङ्गित्वं वर्तते सत्यं परन्तु गो अतिरिक्तेषु गतम् एतत् लक्षणम् महिष्यामपि अस्ति शृङ्गित्वम् अत एव अत्रोक्तम् अतिव्याप्तिः अतः शृङ्गित्वं केवलं गोषु न वर् वर्तते एव परन्तु अन्यत्र अपि भवति यथा अजः अस्ति महिषी अस्ति मृगः अस्ति मेषः अस्ति तत्र शृङ्गित्वं वर्तते अतः तत्र दोषः दृश्यते अतः अन्यत्र अन्यदोषः अस्ति अतिव्याप्तिः अलक्ष्यवृत्तित्वम् इति अतः लक्ष्यापि वर्तते अलक्ष्यापि वर्तते तत् लक्षणं यदि अलक्ष्यापि वर्तते तर्हि तत्र अतिव्याप्तिदोषः दृश्यते अत्र लक्ष्याः गावः अलक्ष्याः महिष्यादयः अत्रापि दृश्यते शृङ्गित्वम् अतः शृङ्गित्वम् अतिव्याप्तिदोषग्रस्तम् अतिव्याप्तिदोषसहितत्वात् शृङ्गित्वं गोः लक्षणम् इति मास्तु अतः वयं दृष्टवन्तः दोषः यदि लक्षणम् इत्युक्ते अतिव्याप्ति व्याप्ति तथा असम्भवदोषरहितः भवेत् अत्र अतिव्याप्तिदोषः अस्ति अतः शृङ्गित्वं गोः लक्षणं न भवितुम् अर्हति शृङ्गित्वं गोः लक्षणं न भवति अतिव्याप्तिदोषग्रस्तम् अस्ति इत्यतः अनन्तरम् असम्भवः समापितं अनन्तरम् असम्भवः अनन्तरम् असम्भवः एकशपत्वं गोः लक्षणम् इति वदामः एकः शपः इत्युक्ते किम् अस्माभिः दृष्टं तथापि भगिन्या उक्तं खूरः खूर इति एकशपः यस्याः सा एकशप गोः पादे विशेषाङ्गः विशेषाङ्गं वर्तते बहु कठिनं चेति अश्वे अपि भवति परन्तु गोः पादे कति शपाः भवन्ति द्वौ शपौ एकस्तु न भवति अपि तु द्वौ एव अश्वस्य एव एक एक एव शफः किञ्च गौः गोः द्वौ तर्हि एकशपत्वं कुत्र वर्तते अश्वे गोषु तु नास्ति एव अस्माकं लक्ष्याः का निखिलाः गावः तत्र तु एकशपत्वं नास्ति अतः अतः तत्र तु, तु, तु एकशापत्वं नास्ति अतः एकशापत्वस्य लक्ष्य सामान्य अवृत्तित्वम् लक्ष्यसामान्य अभावः अतः असमभवः इति उच्यते अतः एकशपत्वं यदि गोः लक्षणं वदामः तर्हि एकः शपः केवलम् एकशपथं केवलम् अश्वे अपि अश्वे भवति परन्तु गोः तत्र द्वौ शपौ अतः तत्र एकशपथं केवलं अश्वे गोषु नास्ति अतः तत्र आ, Uh, कासु गोषु तत्र एकशपत्वं न दृश्यते अतः तत्र लक्षणाभासः दृश्यते तत्र लक्ष्य तत्र असम्भवः असम्भवदोषः दृश्यते लक्ष्यमात्र अवृत्ति अवृत्ति अतः कविः सर्वत्र द्विषपत्वं लक्ष्यस्य एकदेशे कपिलरूपवत्वं न वर्तते स्म परन्तु अत्र एकशपत्व गोसामान्य नास्ति कुत्रापि नास्ति अतः कपिलरूपवत्वविषये अव्याप्तिः एकशपत्वविषये असम्भवः इत्थम् अत्र उक्तं लक्ष्यसामान्य अवृत्तित्वं नाम सर्वासु लक्षसु नास्ति <laughs> द्विशपवत्वं केवलं गवि गवि वर्तते एकशपत्वम् अश्व, अश्व, अश्व, अश्व अश्वे अश्वे वर्तते अतः तत्र तत् लक्षणं गोषु न दृश्यते अतः कुत्रापि न दृश्यते अतः तत्र असम्भवलक्षणम् अस्ति तत् लक्ष एकशपत्वं गोः लक्षणं न भवति महर्षेभवस्तं खलु तर्हि पठामि महोदय तर्हि तर्हि गोः लक्षणं गोः असाधारणधर्मः को अर्हति कः अर्हति सासनाभः कण्ठभागे अङ्गविशेषः भवति चर्मविशेषः कण्ठभागे इतोपि चर्म बहिर्भागे अस्ति कण्ठस्य अधोभागे लोलति सासना इति नास्ती, नास्ती, सासना आश्रयत्वं गवीमात्रमस्ति अश्वे नास्ति नास्ति अलक्ष्ये महिष्यादौ न वर्तते अपि च गोषु सर्वत्र वर्तते श्वेतगौः वा स्वीक्रियतां कपिलगौः वा स्वीक्रियतां गोषु सासनामत्वं भवति एव इत्थं च सासनामत्वं सासना, सासना आश्रयत्वं गोः लक्षणम् अतः असाधारणधर्म इत्युक्ते यत्र गो गोः असाधारणधर्मः अस्ति सासनावत्वम् इत्युक्ते सासना केवलं गोषु वर्तते अन्येषु न वर्तते अनन्तरम् अलक्षेषु न भव भवति अतः तत्र असम्भवदोषः न दृश्यते अतिव्याप्तिदोषः नास्ति अनन्तरं अव्याप्ति अपि नास्ति तत्र गो शासनामर्थं सर्कासु गोषु दृश्यते अतः असाधारणधर्मः सर्वेषु लक्ष्येषु भवेत् अन्यत्र कुत्रापि न भवेत् तादृशलक्षणम् असाधारणधर्म इति अव्याप्तिः न भवेत् अतिव्याप्तिः न भवेत् असम्भवः न भवेत् अतः उच्यते यत् अव्याप्तिः अतिव्याप्तिः असम्भवदोषरहितः असाधारणधर्मः लक्षणम् तत्र गोशब्दस्य विभक्तिरूपं दत्तमस्ति तत्र गौः इति प्रथमा विभक्ति एकवचनं गाम् इति द्वितीया गवा तृतीयः गवे चतुर्थी गोः पञ्चमी गोः षष्ठी गवि सप्तमी केवलं रेफरेन्स् ये जनाः विषये जना <laughs> जना न जानाति तेभ्यः इदं गुणवान् गुणवान इत्युक्ते पठामि वा न गुणवान् इत्युक्तौ अस्य अस्मिन् वा गुणः वर्तते सः गुणवान् मतुब् इति प्रत्ययः मतुब् इत्यस्य अर्थः अस्य अस्मिन् वा इति प्रातिपदिकं मूलरूपं गुणवत् इति अप्रत्ययः इत्युक्ते अस्य भावः घटत्वम् इत्युक्ते घटस्य भावः उन्नतत्वम् उन्नतस्य भावः गुणवत्त्वं गुणवतः गुणवान् इत्यस्य भावः घटत्वं घटे अस्ति उन्नतत्वम् उन्नते अस्ति गुणवत्त्वं गुणवती अस्ति दृष्टान्ते भूतलं घटः घटत्वं भूतले कश्चन घटः अस्ति घटे घटत्वमस्ति एवञ्च स्तरत्रयं वर्तते तत्र उदाहरणं वर्तते अत्र स्तरत्रयमस्ति त्रि लेवल्स् घटत्वं फस्ट् लेवल् घटः सेकेण्ड् लेवेल् भूतलं सर्वाोपरि तरे <corpses> <memoir weaving Twelve> <phin parentheses> <vivir> <usted> <thi> उपरितमे सरे घटत्वमस्ति मध्यमस्तरे घटः अस्ति अधोभागे भूतलम् अस्ति त्व गमनार्थं त्वप्रत्ययं योजयामः अधोभागे गमनार्थं मतुप् पुंसि पुल् पुलिङ्गे वा वति नपुंसके वत् इति प्रत्ययं योजयामः अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत् मतुप् योजयामः मतु प्रत्ययस्य योजनेन आश्रयत्वं प्राच् प्राप्यते घटत्वं योगे मतुक् घटत्ववत् घटवाचकपदम् अतः पुंसि घटत्ववान् घटत्ववान् घटः घटात् भूतलस्य दिशि गन्तुम् इच्छामश्चेत् मतु योजयामः घटयागे घटः योगे मतु घटवत् भूतलवाचकपदम् अतः नपुंसके घटवत् एव घटवत् भूतलम् घटवत् इत्यस्य भावसिद्ध्यर्थं त्वं स्वप्रत्ययं योजयामः घटवत् योगे त्वघटवत्वं घटवत्त्वं घटस्य स्तरे वर्तते नियतलिङ्गत्वात् नपुंसके घटवत्वम् एव पुनः अधोभागिगमनार्थं वतु योजयामः घटवत्वं योगे मतु घटवत्त्ववत् घटवत्त्ववत् घटवत्वस्य आश्रयः अपि च भूतलवाचकपदम् अतः अधोभागे वर्तते तर्हि आहत्य परिणामः एवम् उपरि स्तरे घटवत्वं घटत्वं सरे घटत्ववान् घटः घटवत्वम् अधमसरे घटवत् भूतलं घटवत्ववत् भूतलं घटत्वं घटवत्वं उपरि उपरि स्थले घटत्वम् अस्ति यदि वयं इफ् वी वाण्ट् टु गो डौन् डैरेक्षन् देन् टु एड् वत् घटत्ववत् घटत्वं घटत्ववत् घटत्ववत् घटः एव भवति यतोहि घटत्वं घटे वर्तते अगेन् फ्रोम् घटः इफ् यु वा इन् दि डैरेक्षन् आफ़् भूतलम् देन् अगेन् यु ह् टु यूस् वत् अतः घटवत् भूतलम् घटवत् भूतलम् सो गोइ इ दि डौनवर्ड् डैरेक्षन् यु ह् टु एड् वत् गोइङ्ग् इ अप्वर्ड् डैरेक्षन् यु ह् टु एड् अत्र घटः अस्ति तत्र बै एडिङ्ग् टु यु गेट् घटत्व सिमिलर्ली हियर् घटवत् अस्ति इफ् यू वाण्ट् टु गो इन् दि अप्पर् डैरेक्षन् देन् घटवत्वं बै एडिङ्ग् त्वम् अधुना गोः विषये अपि तथैव गौः कपिलरूपवती चेत् कपिलरूपवत्वम् इति भावः गविः अस्ति शृङ्गित्वमपि गवी अस्ति अतः गौः शृङ्गवती च शृङ्गितवती चेत् हा कपिलरूपवतीवती तर्हि अद्य यत् पठितं तद्विषये कस्यापि प्रश्नः अस्ति Uh, चेत हम, uh, अग्रेम अग्रेम चेत नास्ति चेत् अद्य विरमामः अहं वयम् अग्रिमपाठे अग्रिमभागं स्वीकुर्मः प्रश्नः अस्ति चेत् <laughs> प्रश्नाः सन्ति चेत् पृच्छन्तु नास्ति महोदय स्पष्टमस्ति करपत्रं फाैल् ऐ मिल् शेर् यू केन् if may like to you know. read it once again i will share that file in the whatsapp group and uh, you kahi know. atrasa gayamaha dhanyawadaha agrima pate punah milama dhanyawadaha dhanyawadaha dhanyawadaha shubha dinam dhanyawadaha